अथ नवमः सर्गः तस्यालयवरिष्ठस्य मध्ये विमलमायतम् ददर्श भवन मारुतात्मजः अर्धयोजन विस्तीर्णमायतम् योजनम् महत् भवनम् राक्षसेन्द्रस्य मार्गमानस्तु मार्गमाणस्तु वैदेहीम् सीतामायतलोचना सर्वतः परिचक्राम हनुमानरिसूदनः उत्तमम् राक्षसावासम् हनुमानवलोकयन् आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च परिक्षिप्तमसम्बाधम् रक्ष्यमाणमुदायुधैः राक्षसीभिश्च पत्नीभिः निवेशनम् आहृताक्रम्य राजज कन्यावृतमकीर्णंतिमिंगिल झाकुम वायुवेगसूत पन्नगैसागर या वैश्रवणे लक्ष्मीया चंद्रे हरिवाहने रावण गृहरमिया निवान पाईनी या चाज कुेर यम से वरुण से तादृशी तद्विशिष्टावारुद्धि रक्षो गृहेष्विहा तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम् बहुनिर्यूह संयुक्तम् ददर्शपवनात्मजः ब्रह्मणोऽर्थे कृतम् दिव्यम् दिवि यद्विश्वकर्मणा विमानम् पुष्पकम् नाम सर्वरत्नविभूषितम् परेण तपसालेभे यत्कुबेरः पितामहात् कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः सुकृतैराचितम् स्तम्भैः प्रदीप्तमिव च श्रिया मेरुमन्दर सङ्काशैरुल्लिखद्भिरिवाम्बरम् कूटागारैः शुभागारैः सर्वतः ज्वलनार्कप्रतीकाशैः का सुकृतम् विश्वकर्मणा हेमसोपानयुक्तम् च चा चारु प्रवरवेदिकम् जालवातायनैर्युक्तम् काञ्चनैः स्फाटिकैरपि इन्द्रनीलमहानीलमणिप्रवरवेदिकम् विद्रुमेण विचित्रेण मणिभिश्च महाधनैः निस्तूलाभिश्च मुक्ताभिः स्थलेनाभिविराजितम् चंदन चन तपनीयन निभन चुन्धि युक्त आदितम कूटागारेराकार समल मिम्मक दिव्यहांध पान भक्ष संभव दिव्यं सूर्म जिघ्रन रूपविवाल स गन्धस्तम् महासत्त्वम् बन्धुर्बन्धुमिवोत्तमम् इत एहीत्युवाच एव तत्र यत्र स रावणः ततस्ताम् प्रस्थितः शालाम् ददर्श महतीम् शिवा रावणस्य महाकान्ताम् कान्तामिव वरस्त्रियम् मणिसोपानविकृताम् हेमजालविराजिताम् स्फाटिकैरावृततलाम् दन्तान्तरितरूपिकाम् मुक्ता वज्रप्रवालैश्च रूप्य चामीकरैरपि विभूषिताम् मणिस्तम्भैः सुबहुस्तम्भभूषिताम् समैरृजुभिरत्युच्चैः समन्तात् सुविभूषितैः स्तम्भैः पक्षैरिवात्युच्चैर्दिवम् सम्प्रस्थितामिव महत्या कुथया स्तीर्णाम् पृथिवी लक्षणाङ्कया पृथिवीमिव विस्तीर्णाम् सराष्ट्रग्रहशालिनीम् नादिताम् मत्तविहगैर्दिव्यगन्धाधिवासिताम् परार्घ्यास्तरणोपेताम् रक्षोऽधिपनिषेविताम् धूम्रामगुरुधूपेन विमलाम् हम्सपाण्डुराम् पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम् मनसो मोदजननीम् वर्णस्यापि प्रसाधिनीम् म् शोकनाशिनीम् दिव्याम् श्रियः सञ्जननीमिव इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः तर्पयामास मातेव तदा रावणपालिता स्वर्गोऽयम् देवलोकोऽयमिन्द्रस्यापि पुरी भवेत् सिद्धिर्वेयम् परा हि स्यादित्यमन्यतमारुतिः प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चना धूर्ताव महाधूर्तवन पराजिता दीपा चेजसा रावण से अर्चिर्भूषणना चदीप्तेभ्यमत तथ पश्यकुथासी नान्बरसहर नीणा नानावेश नाना विभूषित परिवृत्तेऽर्धरात्रे तु पाननिद्रावशम् गतम् क्रीडित्व परतम् रात्रौ प्रसुप्तम् बलवत्तदा तरत्प्रसुप्तम् विरुरुचे निःशब्दान्तरभूषितम् निःशब्दहंसभ्रमरम् यथा पद्मवनम् महत् तासाम् संवृतदान्तानि मीलिताक्षीणि मारुतिः अपश्यत्पद्मगन्धीनि वदनानि सुयोषिता प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये पुनः संवृतपत्राणि रात्राविवबभुस्तदा इमानि मुखपद्मानि नियतम् मर्तषट्पदाः अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः इति वामन्यत श्रीमानुपपत्या महाकपिः मेनेः गुणतस्तानि समानि सलिलोद्भवैः सा तस्य शुशुभे शाला ताभिस्त्रीभिर्विराजिता शरदीव प्रसन्नाद्यौ स्ताराभिरभिशोभिता स च ताभिः परिवृतः शुशुभे राक्षसाधिपः यथा ह्युडुपतिः श्रीमाम् स्ताराभिरिव संवृतः याश्यवन्तेऽम्बरा ताराः पुण्यशेषसमावृताः इमास्ताः सङ्गताः कृत्स्न इति मेले हरिस्तदा ताराणामिव सुव्यक्तम् महतीनाम् शुभार्चिषाम् प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् या वृत्तकच पीनस्रप्रकीर्नवरभूषणाः पानव्यायामकालेषु निद्रोपहत चेतसः या वृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः पार्श्वे गलितहाराश्च काश्चित् परमयोषितः मुक्ताहारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः व्याविद्धरशनादामाः किशोर्य इव वाहिताः अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः गजेन्द्रमृदिताः फुल्ला लता इव महामने चन्द्रांशु किरणाभाश्च हाराः का साञ्चिदुद्गताः हंसा इव बभुः सुप्ता स्तनमध्येषु योषिताम् अपरासाम् च वैदूर्याः कादम्बा हेमसूत्राणि चान्यासाम् चक्रवाका इवाभवन् हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः आपग इवे जुर्जघन पुिनकिणी जाल सता हेम विपुलांबुजा भावग्रहाय शस्तीरा सुन नवा बभु मृदुष्वंगु काचिकुचाग्रेशु च संस्थिता बभूवर्भूषण शुभा भूषणराजय अंशु कांता मुख उपर्युपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः ताः पताका इवोद्धूताः पत्नीनाम् रुचिरप्रभाः नानावर्णसुवर्णानाम् वक्त्रमूले सुरे जिरे ववल्गुश्चात्रकासाञ्चित्कुण्डलानि शुभार्चिषा सुखः निश्वासः सुषेवे रावणम् तदा रावणानन शङ्काश्च काश्चिद् रावणयोषितः मुखानि च स पत्नीनामुपाजिघ्रन् पुनः पुनः अत्यर्थम् सक्तमनसो रावणेतावरस्त्रियः अस्वतन्त्रा स पत्नीनाम् प्रियमेवाचरंस्तदा बाहोऽनुपनिधायान्याः पारिहार्य विभूषितान् अंशुकानि च मदस्नेहवशानुगाः अन्योन्यस्याङ्गसंस्पर्शात् प्रीयमाणाः एकीकृतभुजाः सर्वाः सुषु पुस्तत्र योषितः शुभे मत्तषट्पदा लतानाम् माधवे वायुसेवनात् अन्योन्यमालाग्रथितम् संसक्तकुसुमोच्चयम् प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् आसीद्वनमिवोद्धूतम् स्त्रीवनम् रावणस्य तत् उचितेष्वपि सुव्यक्तम् न तासाम् तदा विवेकः शक्य रावणे सुखसंविष्टे ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव राजर्षिविप्रदैत्यानाम् गन्धर्वाणाम् च योषितः रक्षसाम् चाभवन्कन्यास्तस्य काममशङ्गताः युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः समदामदनेनैव मोहिताः काश्चिदागताः न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः न चान्यकामापि न चान्यपूर्वा विना वरार्हाम् जनकात्मजान्तु न चाकुलीना न च हीनरूपाणा दक्षिणानानुपचारयुक्ता भार्या भवत्तस्य न हीन सत्त्वा बभूव बुद्धिस्तुश्वर से यदृशी राघव धर्म पत्नी इमाराक्षस राज्य सुजातम से साधु बुद्धे पुनशिंत दूपो ध्रुवं विशिष्टा गुण तो हि कृतवान अथयस्यातवाहात्मा लषमार्य इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे नवमः